श्रीगणेशाय नमः सद्गुरुमासिरम्बराजगणेशविन्द्राचारचरणारिन्दाभ्यां नमः श्रीमदलग्नभैरराजाय नमः रक्ताम्बोधिस्त्वपोतुलसवर्णसरोजातिरूढम् त्रिनेत्रम् पाशम् शयवाङ्कुशाढ्यम् परशमभेदम् बहुभृदार्यन्तम् शक्त्यायुक्तम् गजास्यम् प्रसतरजठरम् सिद्धिबुद्धिः सभेदम् रक्तम् चन्द्रार्धमौलिम् सकलभयहरम् विघ्नराजम् नमामि श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पते मयूरेशाय गणेशाय साङ्गाय सपैवाराय सा सशक्तिकाय सा सायुधाय सवाहनाय सा सावर्णाय नमः श्रीमहागणपतिरुवाच ॐ गणेश्वरो गणक्रीडो गने गणनाथो गणाधिपः एकदमुष्टोमक्रतुण्डो गजभक्त्रो महोदरः लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः सुमुखो दुर्मुखो बुद्धो विघ्नराजोगजाननः भीमप्रमोद आमोदः सुरानन्दो महोत्कटः हैरम्ब शम्भरशम्भुर्लुम्बकर्णो महाबलः नन्दनो नम् पटौ भीमो मेघनादो गणञ्जयः विनायको विरूपाक्षो वीरशूरवरप्रदः महागणपतिर्बुद्धिप्रियक्षिप्रसादनः रुद्रप्रियोगणाध्यक्ष कुमारगुरुदीशानपुत्रो मूषकवाहनः सिद्धिप्रियसिद्धिपतिसिद्धिसिद्धिविनायकः अभिघ्नस्तुम्बरुसिंहवाहनो मोहिनीप्रियः कटङ्कटोराजपुत्रः शाकलसंवितोदितः कूष्माण्डसामसम्भूतिर्दुर्जयो दुर्जयोजयः दुर्जयो भूपतिर्भुवनगतिर्भूतानाम् पतिरव्ययः पतिर पतिर पतिर विश्वकर्ता विश्वमुखो विश्ववन्दोभिनिर्गुणः कविः कवीनाम् वृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः करः पिध्वस्तसिन्धुसलिल पूषदन्तपित उमाङ्कीलिकुतुकी मुकिदर्पुरपालनः किरीटिकुण्डलीहारी वनमाली मनोमयः वैमुख्यतदैत्यश्रीः सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तकृत दुःस्वप्नदुष्टशमनो गुणीनादप्रतिष्ठितः स्वरूपः सर्वनेत्राधीवासो विभ्राजनूफुरः पीताम्बरःखण्डरतः खण्डवैशाखसंहितः चित्राङ्गश्यामदशमो बालचन्द्रोहविर्भुजः योगाधिपस्तारकस्त पुरुषो गजकर्णकः गणाधिराजो विजयः स्थिरोगजपतेर्भजि देवदेवस्मरप्राणदीपको वायुकीलकः विपश्चित् वरदोन्नादो नादभिन्नमहाचलः वराहवदनो मृत्युञ्जयो व्याघ्राजिनां वरः इच्छाशक्तिभवो देव प्राता दैत्यविमार्दनः शम्भुवक्त्रो भव शम्भुकोपज शम्भुहास्य भूः शम्भुतेजाशिवाशोकहारी गौरीसुखाभवः उमाङ्गमलजो गौरी, गौरी तेजोभूस्वर्धुनीभवः मत्तकायो महानादो गिरिवर्ष्माशुभानुनः सर्वात्मा सर्वदेवात्मा ब्रह्ममोधाय कोसृतिः ब्रह्माण्डपम् अशि दिव्योमो बालसत्यशिरोह्वः जगज्जन्मलयोन्मेष निमेषो ज्ञर्कसोमधृक गिरिन्द्रयकरतो धर्मा धर्मोष्टसामबृंहितः द्विर्षदशनो वाणी दिवो वासवनासिकः भ्रूमद्यसंस्थितकरो ब्रह्मविद्यामदोदकः कुलाचरांशः सोमार्कघण्टोरुद्रिरोधरः दीनदभुजः सर्पाङ्गुलीकस्तारकानुकः व्योमनाधिश्रीधरवयो मेरुपृष्ठोर्णगोधरः कुक्षिस्तयक्षगन्धर्वक्षः किन्दरमानुषः पृथ्वीकटिसृष्टिलिङ्गः शैलो रुदसजानुकः पातालुजङ्गो मुनिपात्कालाङ्गुष्ठस्तैतनुः ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः रत्पद्मकर्णिकाशाली वियत्केरीसरोवरः सद्भक्तध्याननिकडः पूजावारी निवारितः प्रतापी काश्यपो यन्ता गणको विष्टपीबलि यशस्वीधार्मिको चेता प्रथमः प्रथमेश्वरः चिन्तामणिद्वीपपतिः कल्पद्रुपमनालयः रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः तीव्राशिरोधृतपदो ज्वालिनी मौलिलालितः गन्दानन्दृतपीठश्रीर्भोगदाभूषितासनः सकामदायिनी पीठस्फुरदुग्रासनाश्रयः तेजोगतीशिरोरत्नम् सत्यानित्रापदम् हृतः सविघ्ननाशिनि पीठसर्वशक्तम्बुजालयः लिपिपद्मासनाधारो वन्निरामत्रयालयः उन्नतप्रपदो गूढगुल्पसंवृतवार्ष्णिकः पीनजङ्घश्लिष्टजानुः स्थूलो रूपोन्नमत्कटिः निम्ननाभिस्थूलकुक्षिः पीनवक्षा बृहद्भुजः पीनस्कन्दः कम् मृकण्ठो लम्बोष्ठो लम्बनाशिकः भग्नवामृतस्तुङ्गा सव्यदन्तो महाहुनुः प्रस्वनेत्रतरिहश्रूर्प कर्णो निपिडमस्तकः स्तबकाकारकुम्भाग्रौ सर्पयज्ञोपवीतवान् सर्पकोटीरकटकः सर्पग्रैवेजकाङ्गदः सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठवल्लवः श्वेतश्वेताम्बरधरः श्वेतमाल्यविभूषणः श्वेताचपटरुचिरः श्वेतचामरवेचितः सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् सर्वदैककरशाङ्गली बीजपूरी गदाधरः शुभ्राङ्गो लोकसारङ्गः सुतन्दुस्तुवर्धरः किरीटिकुण्डलीहारी वनमाली शुभाङ्गदः इक्षुचापधरः शूली मञ्जरी वृथुदन्तभृत कल्पवल्लीधरो विश्वाभयदैककरो वशीत् अक्षमालाधरो ज्ञानमुद्रावान्मुद्गलायुधः पूर्णपात्रीकम्बुधरो विद्रूताक्षसुमोदकः करस्थामृपलश्चुत कलिकाभृर्कुठारवान् पुष्करस्तस्वर्णघट पूर्णरत्नाम्बुवर्षकः भारतीसुन्दरी नाथो विनायकरतिप्रियः महालक्ष्मीप्रियतमः सिद्धलक्ष्मी मनोरमः आमोदमोद रमारमेशपूर्वाङ्गौ दक्षिण उमामहेश्वरः महीवराहवामाङ्गौ रतिकन्दर्पपश्चिमः आमोदमोदजन्मनः सप्रमोदप्रमोदनः समेधितः समृद्धश्रीरुद्धिसिद्धिप्रवर्धनः दन्तसौमुख्यसुमुखकान्तिकन्दलिताश्रयः मदनावत्याश्रिताङ्गीकृतसौमुख्यदुर्मुखः विघ्नसम्पल्लवोद्विघ्नसेवो निद्रवलद्रवः विघ्नृन्नी चरण्राणीशक्ति संवृतवनोज्वाइकध मोहिणी मोहनो भोगदाय कामुक्त नजीशितृग का वसुधारादोन्नादो महाशंख निधि प्रिय नमदसुमती मौली प्रभुपदि प्रभु सर्वद्गुर संस्य शोचिशेशहदाश्रय ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः प्रत्युग्नयनादित्यो दिव्यास्त्राणाम् प्रयोगवित ऐरावतादिसर्वाशा वारणो वारणप्रियः वज्राज्यस्त्रपरीवार गणचण्डसमाश्रयः दयाजयपरिकरो विजया विजयावहः अजयाचितपादाब्जो नित्या नित्यविलम्बितः विलासिनीकृतोल्लास शौण्डिसौन्दर्यमण्डितः अनन्तानन्दसुखदः सुमङ्गलसुमङ्गलः ज्ञानाश्रयक्रियाधार इच्छाशक्तीनि सेवितः सुभगासंश्रितपदो ललिता ललिताश्रयः काहिनीपालनः कामकामिनी केलिलालितः सरस्वत्याश्रयो गौरीनन्दनश्रीनिकेतनः गुरुगुप्तप्रभोवाच सिद्धो वागीश्वरीपतिः नलिनीकामको रामा वामा ज्येष्ठा मनोरमः रौद्रीमुद्रितपादाब्जोन्दीजस्तुङ्गशक्तिकः विश्वाजननत्राण सहाशक्तिसुकीलकः अमृताब्धिकृतः वासो मदा गूर्णितरोचनः उच्छिष्टोच्छिष्टगणतः गणेशो गणनायकः सार्वकालिकसंसिद्धिर्नित्यसेव्योदिगम्बरः अनापायोऽनम् दशक्तिरप्रमेयो जरोमरः अनाविलो प्रतिहति रक्षितोऽमृतक्षरम् अप्रतर्कोऽक्षयो जयोधारो नामयोमलः अमेयसिद्धिरद्वैतभगोरोप्रमिताननः अनाकारोऽभूम्यग्निपलग्नो व्यक्ताक्षणः आधारपीठ आधार आधाराधेयवर्जितः आधार आधार आखुकेतन आशापूरख आखूमहारतः इक्षुसागरमध्यस्त इक्षुभक्षणलानसः इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः इन्द्रिवर्दलश्याम इन्दुमण्डलमण्डितः इध्वप्रिय इडाभाग इडाधर्मेन्द्रदः इक्ष्वाकुविघ्नविद्वासीति कर्तव्यतीर्सितः ईशाननोदिरीशान ईशानप्रिय ईद्यः ईषणात्रयकल्पान्त इहात्रविवर्जितः उपेन्द्रडुभुन्नौलिरुन्दुरकपतिप्रियः उन्नतान्न उत्तुङ्ग उदार्तृदशागृणीः ऊर्जस्वानुश्मलमत उहापोहो दुरासदः ऋग्यजुस्वामनयनरुद्धिसिद्धिः समर्पकः रुहित्तैकसुलभरुणत्रयविमोचनः रुक्तविघ्नस्वक्तानाम् रुक्तशक्तिः स्वम् लुप्तश्रीमुखाचास्फोटनाशन एपीठ मध्यस्तकतासन यखिलैत्यश्री एजिताखिलयश्वर्यिकाश्मिक ईरावतसमोन्मेष ओंकारच्य ओंकार ओजश्वानौषधीपति औदार्यनिधिर उद्धत्य दुर्य औन्नत्यनिस्वरः अङ्कुशस्वररागाणाम् अङ्कुशाकार असमस्तविसर्गाणाम् प्रदेशोपरिकीर्तितः कमण्डलुधरः कल्पः कपर्धीकलभाक्षीकर्मकर्ता कर्मा कर्मफलप्रदः पदम्बगोलकाकारः कूष्माण्डगणनायकः कारुण्यदेहकफिलः कथककथ खट् खटिसूत्रभृतखर्वः खर्वप्रियः खड्गी खान्तरस्थ खनीर्वलः खल्वाटशृङ्गनिलयः खड्वाङ्गी खदुरासदः गुराढ्यो गहनोऽगस्थो गद्यपद्यहृदार्णवः गद्यगानप्रियो गर्जो गीतो गीर्वाणपूर्वजः गुह्याचारतो गुह्यो गुह्यागमनिरूपितः गुहाशयो गुणाभिधिस्थो गुरुगम्यो गुरोर्गुरुः घण्टाघरिधिरिकामालिघटगुम्बो घटोधरः ङकारवाचो ङकारो ङकाराकारशुण्डभृत चण्डश्चण्डेश्वरश्चण्ड चण्डेशश्चण्डविक्रमः चराचरपिता चिन्ता मणिशर्वणलालसः छन्दश्चन्दो भुवश्चन्दो दुर्लक्षश्चन्दविग्रहः जगद्यो निर्जगत्साक्षी जगदीशो जगन्मयः जपो जपवरो जाप्यो चिह्मासिंहासनप्रभुः जलज्जल्लोल्लसद्दानो शङ्कारिभ्रमराकुरः टङ्कारस्फारसंव्रावष्टङ्कारमणिनूपुरः फद्वयपल्लवान्तस्थसर्वमन्त्रेषु सिद्धितः डिण्डिमुण्डोडाकिनीषोडामरो डिण्डिमप्रियः ढक्वानिनादमुदितो ढुङ्कोढविनायकः तत्त्वानाम् प्रकृतिस्तत्त्वम् तत्त्वम् पदोनिरूपितः तारकान्तरसंस्थानस्तारकस्तारकान्दकः स्थाणुस्थाणुप्रियस्थातास्तावलम् जङ्गमम् जगद लक्षयज्ञप्रमथनो दाता दानम् मदमोदया दयावान्निर्भवो दण्डभ्रूद्दण्डनायकः दन्तप्रभीन्नभ्रमरो दैत्यवारणदारणः दंष्णालघुनविपघटो देवार्थाज्जगजाकृतिः धनम् दलपतेर्बन्धुर्दनदो धरणीधरः ध्यानैकप्रकटो ध्ययो ध्यानम् ध्यानपरायणः ध्वनिप्रकृतिचीत्कार ब्रह्माण्डामलिमेखलः नन्द्यो नादप्रियो नादो नादमध्ये प्रतिष्ठितः निष्कलो निर्मलो नित्यो नित्या नित्यो निरामयः परम् व्यमपरम् धाम परमात्मा परम् बलम् परा पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः पद्मप्रसन्ननयनः प्रणताज्ञाननाशनः प्रमाणप्रत्ययातीतः प्रणतार्तीविनाशनः फणिहस्तः फणिपति पूत्कारफाणितप्रियः बाणारिताङ्ग्रियुगलो बालकीलीकुतूहली ब्रह्मब्रह्माशितपदो ब्रह्मचारी बृहस्पतिः बृहत्तरो ब्रह्मपरो ब्रह्मण्य ब्रह्मविप्रियः प्रूक्षेवदत्तलक्ष्मीको भद्रो भद्रो भयाभः भगवान्भक्तिसुलभो भूतिभो भूतिभूषणः भूति भव्यो भूतालयो भोगो दाता भूमध्यगोचरः मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनोमयः मेखलाहीश्वरो मन्दगतिर्मन्दनिवेक्षणः महाबलो महावीर्यो महाप्राणो महामनः यज्ञो यज्ञपतिर्यज्ञगुप्तायज्ञफलप्रदः यशस्करो योगगम्यो याज्ञिको याचकप्रियः रसोरसप्रियो रसो रञ्जको रावणार्चितः राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः लक्षो लक्षपतिर्लक्षलयस्थो लड्डुकप्रियः लानप्रियोलास्यपरो लाभकृर्लोकविश्वतः वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः वामदेवो मजिरिनेता वज्रीवज्रनिवारणः किवस्वद्बन्धनो विश्वाधालो विश्वेश्वरो विभुः शब्दब्रह्ममयः प्राप्तः शम्भुशक्तिगणेश्वरः शास्त्राशिखानिर्निलयः शरण्यशम्बरेश्वरः षट्रुतुकुसुमस्त्र्वीषडाधालक्षडक्षरः संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् सुष्टिस्थितिर्लयक्रीडः सुरकुञ्जरभेदकः सिन्दूरितमः कुम्भः सत्सदक्तिदायकः साक्षीसमुद्रमथनः स्वयं वेद्यसदक्षिणः स्वतन्त्रसत्यसङ्कल्पः सामगानरतसुखी हंसो हस्तिपिशाचीशो हवनम् हव्यकव्यभृक हव्यम् हुतप्रियो रष्टो रल्लेखा मन्त्रमध्यगः क्षेत्राधिपक्षमा भर्ता धर्मप्रदोषदः कामोदाता सौभाग्यवर्धनः विद्याप्रदो विभवदो भुक्तिमुक्तीफलप्रदः अभिरुप्त्यकरो वीरश्रीप्रदो विजयप्रदः सर्ववश्यकरो गर्भदोषः पुत्रपौत्रदः नेधादः चित्रश्वोपहारी दौर्भाग्यनाशनः प्रतिवादिमुखस्तम्बुरुष्टचित्तप्रसादनः पराभिचारशमणो दुःखः बन्धमौषधः लवस्त्रुटिस्कला काष्ठानिमेषस्तत्पलक्षणः लटीमुहूर्तम् प्रहरो दिवानत्रमहर्निषम् पक्षो मासोजनम् वर्षम् युगः कल्पो महालयः राशिस्तालातिथिर्योगो बालस्करणमौषकम् लग्नम् होराकालचक्रम् मेरुः सप्तर्षयो ध्रुवः राहुर्मन्दः कविर्जीवबुधो भौमशिरविः कालसृष्टिस्थितिर्विश्वम् स्थावरम् जङ्गमञ्जगद भूरापो निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ब्रह्मा विष्णुशिवो रुद्र इन्द्रशक्तिसदा शिवः त्रिदशाः पितरः सिद्धाः यक्षा रक्षांसिकिन्दराः साध्याविद्याधरभूताः पशमनुष्या पशवखगाः समुद्राः सलितः शैलाभूतम् भव्यम् बवोधुम् साङ्ख्यम् पातञ्जलम् योगः पुराणानि श्रुति वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः आयुर्वेदो धनुर्वेदो गान्धर्वम् काव्यनाटकम् वैखानसम् भागवतम् मानुषम् पाञ्चनात्यकम् शैवम् पाशुपतम् कालमुखम् भैरवशासनम् शाक्तम् वैनायकम् सौरम् जैनमानतसंविदा सत्सद्व्यक्तमव्यक्तम् सचेतनमचेतनम् बन्धो मोक्षसुखम् भो स्वस्ति हुंफक्ष्वधा स्वाहा सौषड्वौषड्वषण्णमः ज्ञानम् विज्ञानमानन्दो बोधः संवित्समो समः एक एकाक्षराधार एकाक्षरपरायणः एकाग्रथिरेकवीर एकानेकस्वरूपधृग का द्विरूपो द्विभुजो द्विक्षो द्विरजो द्वीपरक्षकः द्वैमातुरो द्विवदनो द्वन्द्वहीनो दयातिकः त्रिधामादिकरस्त्रेता त्रिवर्गफलदायकः त्रिगुणात्मा त्रिलोकादित्रिशक्ति च त्रिलोचनः चतुर्बाहुश्चतुर्दन्त चतुरात्मा चतुर्मुखः चतुर्मुखमयोपायशतुर्वर्णाश्रमाश्रयः चतुर्विधव चो वृत्तिः परिवृत्ति प्रकप्रवर्तकः चतुर्थीपूजनः प्रीतिश्चतुर्थीतिसम्भवः पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्य पञ्च पंचाधारण पंचाक्षरपरायण पंचताल पंचक पंच प्रणव मातृक पंच ब्रह्मयस्फूति पंचावर्ण वारी पंचभ प्रिय पंच बाण पंच शिवात्मक षट्कोणपीठक्रधा षडिधक विध्वंसी षडंगुमह ष्म भ्रता षक्ति परिवार षड्वैरिवर्गविध्वंसि षडुर्मी भयभञ्जनः षट् तर्कदूरषट्करमाः षड्गुण षड्रसाश्रयः सप्तपातालचरणः सप्तद्वीपोरुमण्डलः सप्त स्वर्लोकमुकुटः सप्तसप्तीवरप्रदः सप्ताङ्गराजसुखदः सप्तर्षीगणवन्दितः सप्त छन्दोनिधि सप्त सप्ताभिसिकीनिकासारः सप्तमातृनिषेवितः सप्त छन्दो मोदमतः सप्तछन्दो मखप्रभुः अष्टमूर्तिध्येयमुष्टिमूर्तिरष्टप्रकृतिकारणम् अष्टाङ्ग्योगफलप्रदष्टमत्राम्बुजासनः अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रदायकः अष्टपीठोपपीठश्रीरष्टमातृसमावृतः अष्ट अष्टभैरवसेव्योऽष्टवसुमन्ध्योऽष्टमूर्तिभृतम् अष्टचक्रस्पुरन्मूर्तिरष्टद्रव्यः विक्रियः न मुनाशासनाध्यासी नवनीत्यनुशासिता नवद्वारपुरावृत्तो नवद्वारनिकेतनः न मु नारायणस्तुत्यो नवदुर्गानि सेवितः नमुनाथमःनाथो नव नागविभूषणः नव रत्नविचित्राङ्गो नवशक्तिषुतो धृतः दशात्मको दशभुजो दशदिक्पतिवन्दितः दशाध्यायो दश प्राणो दशाक्षरमहामन्त्रो दशा व्यापि विग्रहः एकादशादिभिः रुद्रैः सतश्च एकादशाक्षरः द्वादशोद्दण्डतोर्दण्ड द्वादशास्त्रनिकेतनः त्रयोदशविधा भिन्न विश्वे चतुर्दशादिविद्याड्यचतुर्दशजगत्पतिः सामपञ्चदशः पञ्चदशी शीतांसि निर्मलः षोडशाधारमिलयः षोडशस्वरमात्मकः षोडशान्त्यपदावासः षोडशेन्दुकलात्मकः कलासप्तदशी सप्तदशः सप्तदशाक्षरः अष्टादशदिगपतीरष्टादश पुराणकृतम् अष्टादशीसृष्टिरष्टादशविधि स्मृतः कृता। अषादलिप्कृतिरष्टादशाकृत एकशत्मानेकश्ंगुपल चतुर्वशति तत्वा पंचवशाख्यपूरषा सप्ततिप्त विंशतोग्वांशद्भरवाधीश चतुशन्महसूतिश्त्कु नम देकोपंचाशत्मर्ग निर पंचाद्रेणी पंचाश रुद्र विग्रह पंचाशिषुशक्तीशह पंचाशन्मात कालयचाशपुश्रेणी त्रिष्ट्यक्षर संश्रय चुष्षण निनिर्णेता चतुष्टी कला निधि चतुष्टिमहािनी वृंदविता अष्टिमहातीभरव चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः शतानन्दशतधृतिः शतपत्रायते क्षणः शतानीकशतमुखः शतधारबलायुधः सहस्रपत्रनिलयः सहस्रफणिभूषणः सहस्रशीर्षापुरुषः सहस्राक्षरसहस्रपह सहस्रनामसंस्कृत्यः सहस्राक्षरबलापहः च सहस्रफणिभूत्फणिराजकृतासनः अष्टाशीतिसहस्रौ महर्षिस्तोत्रपाठितः लक्षाधारप्रियाधारौ लक्षाधारमनोमयः चतुर्लक्षजपप्रीतिचतुर्लक्षप्रकाशकः चतुरशीतिलक्षाणाम् जीवानाम् देहसंस्थितिः कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः शिवोद्भवाद्यष्टकोटिविनायकसुरन्दरः त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः अनन्तदेवतासेव्यो जनन्तशुभदायकः अनन्तनामानन्तश्रीरनन्तः अनन्तसौखः अनन्तशक्तिसहितो यनन्तमुनिसंहितः अनन्तमुनिसंशित ॐ नम इति वैनायकम् नामाम् सहस्रमिदमीरितम् इदम् मुहूर्ते वै यः पठे प्रत्यह नरः परस्थम् तस्य सकलमहि कामूष्मिकम् सुखम् ऐरारोग्यमैश्वर्यम् धैर्यम् शौर्यम् बलम् यशः मेधाप्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता सत्यम् दया क्षमा शान्तिर्दाक्षिण्यम् धर्मशीलता जगत्संवननम् विश्वसंवादो वेदपाटवम् सभापाण्डित्यमौदार्यम् गाम्भीर्यम् ब्रह्मवर्जसम् ऊजस्तेजः कुलम् शीलम् प्रतापो वीर्यभार्यता ज्ञानम् विज्ञानमास्तिक्यम् धैर्यम् जपते यस्य वश्यार्थम् ससा जायते परमार्थकाममोक्षाणामनायासेन साधनम् शाकिनी दाकिनी रक्षो यक्षग्रहभयापलम् साम्राज्यसुपदम् सर्वसपत्नमदमर्दनम् समस्तकलहध्वंसि दग्धबीजप्ररोहणम् दुःस्वप्ननाशनम् क्रुद्ध सामिचित्तप्रसाधनम् षट्कर्माष्टमः सिद्धि त्रिकालज्ञानकारणम् परकृत्यप्रशमनम् परचक्रविमर्दनम् सङ्ग्रामरङ्गे सर्वेषामिदमेकम् जयावहम् सर्वबन्ध्यत्वदोषघ्नम् गर्भरक्षैककारणम् पठ्यते प्रत्यहम् यत्र स्तोत्रम् गणपतेरिदम् देशे तत्र न दुर्भिक्ष गीतयो दुरितानि च न तद्गेहम् जहापि श्रिये यत्रायम् जप्यते स्थवः क्षयः कुष्ट्रमे हार्षौ भगन्तरपिशोचिके गुल्मम् प्लीहानवल्मीकमतिसारम् महोदरम् कासम् श्वासम् उदावरतम् शूलम् शोभम् जलोदरम् शिरोरोगम् वमिम् हिक्काम् गण्डमालामरोचकम् आगन्तुम् विशमम् शीतोमुष्णम् चैकादिकाहिकम् इत्यादुक्तमनुक्तम् वा रोगम् दोषादिसम्भवम् सर्वम् प्रशमयत्याशु स्तोत्रस्य सचकृ जपः प्राप्यते स जपात् सिद्धिः स्त्रीषु द्रौपदितैरपि सहस्रनाममन्त्रोऽयम् दत्तव्यस्तुषु महागणपते स्तोत्रम् सकामप्रजपन्निदम् इच्छया सकलापभूजेह पार्थिवा मनोरथफलिव्योमयानोर चंद्रेन्द्रभास्करेन्द्र ब्रह्म सर्वा सदमसु काम कामगति कामद काम भुक्त यथेतान् भोगानीष्ट सह बंधु गणेश भूता महागणपते नंदीरादिंद शिवाभ्यापया पुत्र निर्शेण लालिता शिवभक्त पूर्ण कामो गणेशरपरा जातिस्म धर्मपर सामभौमो भी जायते निष्कामसपन्त भक्तिया विघ्नेशतत्दि पराप्य परा ज्ञान वैराग्यसम सिति निरन्तरोदितानन्दे परमानन्दसौजिते विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते लीनो वैनायके धाम् नीरमते नित्यनिरसृतिम् इदम् प्रजप्तम् पठितम् पाठितम् श्रावितम् श्रुतम् व्याहृतम् चर्चितम् ध्यातम् विमृष्टमभिनन्दितम् यः सर्वैश्वर्यप्रदायकम् स्वच्छन्दचारिणाप्येषु येन सन्धारते सवः स्वरक्षते शिवोद्भूतैर्गणैरप्यष्टकोटिभिः लिखितम् पुस्तके स्तोत्रम् मन्त्रभूतम् प्रपूजयेत् तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च नफलम विंदती येसहस्रम सन्ना सहस्रम पठती दिन मणु प्रत्यहम प्रोजिहानी सायं मध्यम दिने वात्रिशवण अथवा सततम वाजनों सैदश्वर्यध प्रभवति वचस की दारिद्र्यम् हन्ति विश्वं वश्यति सुचिरम् वर्धते पुत्रपौत्रैः अकिञ्चनोऽपेकचित्तो नियतो नियताशनः प्रजपन् शत्रो मासान् गणेशार्चनतत्परः दरिद्रताम् समोन्मूल्य सप्तजन्मानुगामपि लभते महतीम् लक्ष्मीमित्याद्याम् पारमेश्वरीम् आयुष्यम् वीतरोगम् कुलमतिविमलम् सम्पदश्रेणिदानाः कीर्तिः पुण्यापदाता भणतिरभिनवा कान्तिरव्यादिभव्या पुत्राः सन्तः कलत्रम् गुणवदभिमतम् यद्यदन्यच्चतत्तम् नित्यम् यस्तोत्रमेतत् पठति गणपतिः तस्य हस्ते समस्तम् गणञ्जयो गणपतिर्हीरम्बो धरणीधरान् महागणपतिर्बुद्धिप्रियक्षिप्रसादनः अमोघसिद्धिरमितमन्त्रश्चिन्तामणिर्मितिः सुमङ्गलो बीजमाशा पूरको वरदः कविः काश्यपोऽनङ्गणोवाचा सिद्धोढुण्ठिरपि नायकः मोदकैरेभिरत्यैकविंशत्या नामभिः पुमान् यस्तौति मद्गतमना मदाधनतत्परः हस्रेण के ना संशय नमो नमस्वरपूिता नमो नमो निरुपमंगलामने नमो नमो विपुल साधक सिद्ध नमो नम कल कलभाननायते किणरचित चरण प्रकटितुकण मदजलहरी कलित कपोल शमृत दुरी कंणपतिरधतना श्रीमदादी श्रीमदेशर महापुराणे महा उपासनाखंड ईश्वर महागणपति संवाद श्रीमद्गणेश सहस्रनाम स्त्रोत्र श्रीमद्गणेश